मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायं 51. काशी काशीशिवरप्रदानम् श्रीगणेशाय नमः याज्ञवल्क्य उवाच तदशम्भुः परां चिन्तामापेदे मनसा मुने देव सदोद्यमाजातास्तपसा तस्य धीमतः स्वधर्मपरयेवायं तपसा, तपसा च समन्वितः नोच्चालितुं भवेच्छाक्य किं भविष्यदि वै ततः मया काशी कदा लभ्या दग्धोऽहं विरहाग्निना मरिष्यामिन सन्देहो महेश्वरः अस्ति चर्मावशेषोऽपि शुशोच बहुधा शिवः तं देवामुनयः सर्वे सान्त्वया मासुरादराद देवर्षय ऊचुः मा कुरुष्व वृथा चिन्तां त्वं समर्थो महेश्वर तव प्रसादयोगेन गच्छामः काशिकां वयं नानासिद्धिभिरालोभ्य लोकांस्तत्र समन्तदः तत्पापभागिनं भूपम् दिवो दासं च कुर्महे ततस्त्वया विशेषेण काशीग्राह्या सदाशिव एवमुक्त्वा युयुस्तत्र देवा सर्वे प्रकर्षिताः तत्राभवन् गदा काश्यां नानारूप धरासुराः जनान् सम्मोहयामासुसिद्धिं कृत्वा विशेषदः धर्मशीला जनाः सर्वे तेषां वाक्यं न चक्रिरे एकवर्षं प्रयत्नं ते कृत्वा शान्तिं प्रलेभिरे तद सदा शिवस्तत्र प्रेरयामा सैरवान्ेनश्च विधर्न समर्थ बभूविरें क्रमेण आदि वत्सवश्चर्षय परा योगिच हदोद्योगास्तथाभवन् ततो ब्रह्माणमाबोध्य प्रेषयामास शङ्करः दशाश्वमेधाश्च कृतास्तेन शान्तिं जगामसः ततस्तु शङ्करस्तत्र ध्याननिष्ठो बभूवः चरणे विघ्नराजस्य सर्वाशापूरके परे सविघ्नं मां गणाध्यक्ष निर्विघ्नं कुरु सर्वदा दासोऽ ते विमुक्तस्य संरक्ष विरहात्प्रभो एवं निश्चितचित्तस्तु वर्षमेकं गजाननम् ध्यानेन तोषयामास शङ्करकार्यसिद्धये दृष्ट्वाहङ्कारनिर्मुक्तमत्यन्तशङ्करं प्रभुः दर्शयामासरूपं स्वं योगिध्येयमनुत्तमं सिंहारूटं च दुर्बाहुं पाशाङ्कुशधरं प्रभुम् वरदाभयहस्तं च सिद्धिबुद्धिसमन्वितं रक्तवर्णं सुशोभाढ्यं गजवक्त्रं महोदरं विविधैः शशनाभिं तं भूषणै सुविराजितं चिन्तामणिधरं पूर्णं तेजो राशिं दृष्ट्वा देवम् मुदा युक्तशङ्करः प्रणनामः तदस्थम् पूजयामास तुष्टावस यथामति देवदेवं गणाध्यक्षम् वक्रतुण्डं विधानदः शिव उवाच नमस्ते वक्रतुण्डाय सर्वसिद्धि प्रदायच, च निराकाराय देवाय साकाराय नमो नमः नमः सर्वप्रबोधाय नमः सर्वप्रियङ्करगणानां पदयेतुभ्यं गणेशाय नमो नमः ब्रह्मणे सृष्टिकर्त्रे ते पालकाय च विष्णवे संहर्त्रे ते हरायैव गुणेशाय नमो नमः ब्रह्माकाराय वैतुभ्यं ब्रह्मभूताय ते नमः नमः प्रपञ्चरूपाय प्रपञ्चानां प्रचालक अनन्दगुणधाराय ह्यनन्दविभवाय ते अनन्दोदररूपाय हैरम्भाय नमो नमः कारणानां परायैव कारणाय नमो नमः अकारणाय वैतुभ्यं सिंहवाहाय ते नमः अहं जीवसमानश्च सञ्जातो नात्र संशयः अविमुक्तं विमुक्तं मे जातं देवदयानिधे अतस्त्वां शरणं यादो निर्विघ्नं कुरु मां प्रभो देहि काशीं गणाध्यक्ष अविमुक्ततया त्वया पुरवरोदत्तस्मरणेन त्वदग्रदः स्थास्यामि पुत्रभावेन तं पालय गजानन इत्युक्त्वा पादयोस्तस्य प्रणनाम महेश्वरः तमुद्घाप्यगणाध्यक्ष उवाच प्रहसन्निवा वक्रतुण्ड उवाच त्वया कृतमिदं स्तोत्रं सर्वसिद्धिकरं भवेद पठते शृण्वते चैव भुक्ति मुक्तिप्रदंशिव अन्यद्यत्प्रार्थितं सर्वं करिष्यामि सदाशिव अविमुक्तं प्रदास्यामि सार्थकं तेजसाम्प्रतं इत्युक्त्वा निर्ममे देहाद्ब्राह्मणं सर्वसुन्दरं सर्वज्ञं च गुणेशस्य तेजोयुक्तं प्रभाविणम् आज्ञापयच्च तं देवो गच्छत्वं शिवसिद्धये काश्यां तुं बुद्धिसम्मोहम् जनानां कुरु सत्वरं मोहयित्वा दिवोदासं काशीराज्यं शिवाय च ममाज्ञया देह्यद्यत्वं सर्वपूज्यो भविष्यसि धुण्ढिं ज्योतिर्विधं वदिष्यन्ति जनाद्विजाः त्वदीयवंशगाः सर्वे भविष्यन्दिन संशयः द्विजो श्रुत्वा द्विजोद्धुण्डिं प्रणनाममुदायुधः ययौ प्रदक्षिणीकृत्य काशीं स गणपं स्मरन् ततो विष्णुं समाहूय तं जगाद गजाननः बौद्धरूपेण विष्णोत्वं त्वं काशीं गच्छमदाज्ञया द्विजेन धुण्ढिना सर्वं मोहितं नगरं भवेद कुरुत्वमधुना भ्रष्टं मम वाक्या जनार्दन प्रणम्यतं तदा विष्णोर्गणेशं बौद्धरूपदृक ययौ महाभागो वक्रतुण्डम् हृदि स्मरन् तौ यथा गणराजेन कथितं चक्रतुस्तथा मोहयुक्तम् पुनर्भ्रष्टं नगरं सर्वमञ्जसा अन्यच्छृणुचरित्रम् त्वं विश्वामित्रतपोधना काशीध्यानयुदा तत्र संस्थिदा गणपश्यतु सहस्रं तत्र वर्षाणां गदमेकं महामुने तस्यास्तपः प्रभावेण सन्तुष्टो भूद्गजाननः वरं दातुं समायाधः काश्यै मूर्तिधरः प्रभुः सिंहारूढप्रसन्नात्मा नानाभूषणभूषितः तंदृष्ट्वा दृष्ट्वा सहसोद्धाय काशी परमपावनी पादयोः प्रणनामाद कर्षिता विह्वला भृशं पुनरुद्धाय तं देवं पूजयामासभकृदः तुष्टावसुस्थिरा भूत्वा निबद्धकरसम्पुटा काश्युवाच नमस्ते गणनाथाय नमस्ते नन्दरूपिणे नमस्ते सर्वदात्रै वै मायाधाराय ते नमः गजवक्त्रधरायैव शूर्पकर्णाय दे नमः सर्वभूषाय वैतुभ्यं वक्रतुण्ड नमोऽस्तु ते निराकाराय नित्याय निर्गुणाय गुणात्मने वेदवेद्याय सततं ब्रह्मणे ते नमो नमः ब्रह्मणाम् ब्रह्मदात्रे च सिंहारूढाय ते नमः सिद्धिबुद्धिपदे तुभ्यं नमः सर्वाभयङ्कर अनाधाय च नाथाय सर्वेषां पालकाय च भक्तेभ्यः सर्वदात्रे ते विघ्नहर्त्रे विघ्नकर्त्रे ह्यभक्तानां भुक्तिमुक्तिप्रदाय च योगिनां हृदिसंस्थाय योगगम्याय ते नमः मनोवाणीविहीनाय शान्तिरूपाय ते नमः शान्तेभ्यः शान्तिदात्रे च गणेशाय नमो नमः किं स्तौमि त्वां गणाध्यक्ष यत्र वेदा शास्त्रकाः शान्तिं प्राप्ता महाभागा अत त्वां प्रणमामि वै रक्ष रक्ष च दासीं ते विरहेण प्रपीडिताम् अविमुक्ता शिवेनैवं बभूव मे शिवहीना कृदा देवदैवं तु परमाद्भुतम् अधस्ते शरणम् प्राप्ता शङ्करं दर्शयस्व माम् इत्युक्त्वा पतिता महामुने तामुद्धाप्यगणाधीशो जगौ मधुरया गिरा गणेश उवाच मा शोकं कुरुकल्याणि शङ्करं दर्शयामि ते नाम सार्थकं प्रभविष्यति त्वया कृतमिदं स्तोत्रं वियोगहरणं भवेद् यः पठिष्यति भक्र्या च श्रोष्यते तस्य सुन्दरि यं यम यमिच्छति भावेन तम् तम् दास्यामि सर्वगः ब्रह्मभूयकरं स्तोत्रम् भविष्यदि न संशयः इत्युक्त्वा तमेव सा विध्याय स्थि काल प्रदीक्षि का। ओं तत्सदिश्रीमदांदे पुराणोपन श्रीम्न्मुद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरि काशी शिववरप्रदानं नामैक पञ्चाशत्तमोऽध्यायः ओम्